सर्वेषां स्वागतं प्रार्थनया आरम्भं कुर्मः अधुना वीणा भगिनी नमस्ते वीणा भगिनी नमो नमः मम ध्वनिः श्रूयते वा सर्वेषाम् श्रूयते खलु अस्तु आरम्भं कुर्मः प्रार्थनया अस्तु अस्तु अस्तु राधा भगिनी आरम्भम् करोति वा प्रार्थनया या नमो नमः आम् भगिनी नमोऽस्तु ते व्यासविशालबुद्धे पुल्लारविन्दायतपत्रनेत्र येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयप्रदीपः सर्वोपनिषदो गाहो दोग्धा पार्तो पार्थो वत्ससुतीर्भोक्ता दुग्धम् गीतामृतम् महत् शान्ताकारम् भुजगशयनम् पद्मनाभम् सुरेशम् विश्वाधारम् गगनसदृशम् मेघवर्णम् शुभाङ्गम् लक्ष्मीकान्तम् कमलनयनं योगभिर्ध्यानगम्यम् वन्दे धन्यवादाः पुनः एकवारं सर्वेषां स्वागतम् अधुना अस्माकं विषयः लट् लकारः इति विषयः प्रचलति लट् लकारः तत्र वयं दृष्टवन्तः तत् एकवारं गतसप्ताहे या तालिका शेर् स्क्रीन् कृत्वा सा ता तालिका एव अहं पुरतः स्थापयामि एकवारं hmm. अद्य दिने एकवारं गप्ताहे यत्किमपि वयं पठितवन्तः तस्य पुनरावर्तनं पुनः एकदा पुनः एकवारं तस्य पठनं कृत्वा अग्रेसरी एकवारम तस्य पठनं भवेत् इति मन्ये हा एषा कालिका वयं दृष्टवन्तः गतसप्ताहे एकवारं तस्य प्रथमः तद् प्रथमा अस्मत् प्रथमा युष्मत् तत्तु अस्ति अनन्तरं कर्तरिलटलकार परस्मैपदानि रूपाणि सन्ति तत्र वदति वदतः वदन्ति वदसि वदथ ह वदामि वदामः वदामः तत्र एकवारं भारतमहोदय तत्र सः वदति तौ वदतः एवं मेलनं कृत्वा एकवारं पठति वा ओ आं भगिनि पठतु सः वदति तौ वदतः ते वदन्ति अहं वदामि आवां वदावः वयं वदामः त्वं वदसि उत्तम उत्तम त्र प्रथमपुष एक प्रथमपुष रूप वदी सह तौते संग अनम युवाम युय मध्यमुष तद वदसी वद वद उत्तमपुरुषस्य कृते अहम् आवाम्बयम् एकवचनं द्विवचनं बहुवचनं क्रमेण तत्र वदामि वदावः वदामः एतानि रूपाणि भवन्ति अधुना अद्यदिने वयं किं कुर्मः एतानि रूपाणि तेषां पुनरावर्तनमपि भवति इतोपि तत्र विशेषक्रियापदानि इति एक पाठ्यांशः अस्ति विशेषक्रियापदानि इत्युक्ते वद वदस्थाने यदा अहं पठ इति स्थापितवती तदापि पठति पठतः पठन्ति पठसि पठतः पठतः पठामि पठावः पठाम एतादृशाणि रूपाणि भवन्ति परन्तु विशेषक्रियापदानि तत्र इतोपि एकनिमिषं तत्र तालिका एव पुरतः स्थापयामि विशेष तत्र कानिचन क्रियापदानि अहम् तत्र अत्र स्थापितवती आसं तत् कुर्वन्ति करोति कुरुतः कुर्वन्ति जानाति जानीतः जानन्ति पश्यन्तु अत्र करोति कुरुतः कुर्वन्ति यदा तत्र वदति वदतः वदन्ति तदा अत्र किञ्चित् भिन्नप्रकारेण चरति तत्र क्रू इति धातुः अस्ति डुक्क्रूकरणे क्रू करणे प्रसिद्धः धातु तत्र प्रथमपुरुष एकवचनान्तरूपं करोति परन्तु प्रथमपुरुष द्विवचनान्तरूपं कुरुतः इति भवति न तु करोतः कुरुतः इति भवति तथैव बहुवचनान्तरूपं कुर्वन्ति एतानि सर्वाणि विशेषक्रियापदानि एकवारं तस्य पठनं वयं कुर्मः विशेषक्रियापदानि कानि इतोपि तत्र पुस्तके अस्ति तं प्रति अनन्तरं गच्छामः परन्तु एतानि क्रियापदानि भरतमहोदय भवानेव पठति वा करोति कुरु कुरुतः कुर्वन्ति एवं पठति वा करोति कुरुतः कुर्वन्ति जानाति जानितः जानन्ति िनोति चिनुतः चिन्वन्ति चुहोति जुहुतः चुह्रति क्रीणाति क्रीणीति क्रीणीतः क्रीणन्ति ददाति दत्तः ददति एतानि सर्वाणि विशेषक्रियापदानि तत्र इर्रेग्युलर् वर्ब्स् इति एक एका संज्ञा अस्ति इर्रेग्युलर् वर्ब्स् इति परन्तु वर्तमानकाले विशेषक्रियापदानि इतोपि तत्र अस्ति पुस्तके अस्ति तत्र वयं पठामः अनन्तरं तत् बध्नाति इति अस्ति अनन्तरं शृणोति इति अस्ति शृण्वन्ति इति भवति तस्य रूपं शृणोति शृण्व शृणोति शृणुतः शृण्वन्ति एवं सर्वम् अस्ति अधुना इतोपि अस्माकं पठनबिन्दुः अत्र एकः अंशः इतोपि तत्र वर्तते पश्यन्तु तत्र अहं लिखितवती सः तौते सः तौटे इत्युक्ते एतत् शब्दस्य पुल्लिङ्गी प्रथमा विभक्ति एकवचनान्तं द्विवचनान्तम् बहुवचनान्तं सः तौ तथैव सा ते ताः इत्युक्ते स्त्रीलिङ्गी एतत् शब्दस्य स्त्रीलिङ्गी प्रथमाविभक्ति एकवचन द्विवचन बहुवचनम् अधुना यदि प्रश्ननिर्माणं कुरुत तत्र प्रश्न प्रश्ननिर्माणं करणीयमस्ति तदा कथं प्रश्नस्य निर्माणं भवति तदा कः तौ तौ ते ते के, किम, कि मूल प्रातिपदिंगी प्रथमा विभक्ति कह कौके तथैव किम् इति प्रातिपदिकस्य स्त्रीलिङ्गिरूपाणि प्रथमाविभक्त्यन्त एकवचन द्विवचन बहुवचन काके कः यथा वयम् एतत् शब्दस्य कृते स्त्रीलिङ्गरूपाणि सा ते ताः इति वदामः तथैव प्रश्ननिर्माणसमये स्त्रीलिङ्गिरूपाणि काके कः तथैव किं भवति भवन्तः सर्वे जानन्ति यदा किं के कानि इति नपुस्तकलिङ्गीरूपाणि अहं वदामि किं केकानि तदा किं भवति तत्तेतानि इति भवति एवं खलु तत्ते किं के कानि सः तौटे कः कौटकेतः का केकः तत्ते किं के कानि एवं भवति प्रश्ननिर्माणस्य कृते अधुना अहं <coughs> वदामि यदा सः करोति सः करोति प्रश्ननिर्माणं कथं भवति कः करोति उत्तरं भवति सः करोति तौ कुरुतः प्रश्ननिर्माणं कौ कुरुतः तौ कुरुतः ते कुर्वन्ती, के पुल्लिङ्गि तत् शब्दस्य कृते अधुना स्त्रीलिङ्गि तत् शब्द सातेतः कथं भवति अहं वदामि सा करोति तदा का करोति ते कुरुतः ते इति महिलाद्वयम् तत्र एवं खलु ते कुरुतः के कुरुतः ते कुरुतः बालिकाद्वयम् महिलाद्वयम् एवं सर्वं कुरुवन्ती, कुरुवन्ती, हा शिवलिङ्गी तिवच ताः कुर्वन्ति काः कुर्वन्ति ताः कुर्वन्ति महिलाः तत्र सम्मिलिताः सन्ति महिलाः मिलित्वा किमपि कार्यं कुर्वन्ति ताः कुर्वन्ति काः कुर्वन्ति कुर्वन्ति इति उत्तरम् एतत् अवगतम् स्पष्टमस्ति वा अधुना वयं प्रश्ननिर्माणं कुर्मः अत्र तालिकाम् एव दृष्ट्वा अत्र एव कुर्मः अनन्तरं पुस्तकं प्रति गच्छामः हा अधुना हा राधा भगिनी कथं करणीयं यथा अहम् उक्तवती करोति कः करोति तौ कुरुतः कौ कुरुतः ते कुर्वन्ति के कुर्वन्ति तथैव श्रेरिङ्गी सा करोति का करोति ते कुरुतः के कुरुतः ताः कुर्वन्ति ताः कुर्वन्ति एवम् अधुना जानाति इति रूपं स्वीकृत्य सर्वाणि वाक्यानि वदन्तु आम् भगिनि सः जानाति कः जानाति तौ जानीतः कौ जानीतः जानन्ति के जानन्ति उत्तमं सा जानाति का जानाति ते जानीतः के जानीतः ताः जानन्ति ताः जानन्ति चिनोति अपि करोतु चिनोति इत्युक्ते इत्युक्ते चयनं करणीयम् इति सः चिनोति कः चिनोति तौ चिनुतः कौ चिनुतः ते चिन्वन्ति के चिन्वन्ति सा चिनोति का चिनोति ते चिनुतः के चिनुतः ताः चिन्वन्ति काः चिन्वन्ति इत्युक्ते तत्र सीलिङ्गिशब्दः वा पुल्लिङ्गिशब्दः तत्र लट् लकारे प्रथमपुरुषे वा मध्यमपुरुषे mm -hmm. वा उत्तमपुरुषे तत्र किमपि परिवर्तनं नास्ति एतत् मनसि स्पष्टतया अवगमनं तस्य भवेत् एव उत्तमं धन्यवादः mm -hmm. धन्यवादः mm -hmm. mm -hmm. अग्रिमे जयन्ती भगिनी करोति वा कः जुहोति सः जुहोति hmm. कौ जु, जु जुहु जुहूतः सौ जुहूतः के जु जुह्वति ते hmm. जुह्वति hmm. तत् हू इति प्रसिद्धः धातु खलु भगवद्गीतायां हूदानादानयो इति का जुहोति सा hmm. जुहोति के जुहो जुहूतः ते जुहूतः काः जुह्वति ते ताः जुह्वति कः कः क्रीणाति सः क्रीणाति कौ क्रीणीतः तौ क्रीणीतः के क्रीणन्ति ते क्रीणन्ति का क्रीणाति सा क्रीणाति के क्रीणीतः क्रीणीतः ते क्रीणीतः काः क्रीणन्ति ताः क्रीणन्ति क्रीण क्री इति द्रव्यविनिमये द्रव्यविनिमये इति अत्र उत्तमं धन्यवादः धन्यवाद अगस्टमहोदय भवान करोति वा ददाति शक्नोति इति अस्तु भगिनि कः ददाति सः ददाति कौ दत्तः तौ दत्तः के ददाति ते ददाति का ददाति सा ददाति के दत्तः ते दत्तः काः ददाति काः <laughs> <laughs> ददति इति <ना>? तत्र इरेग्युलर् <laughs> uh, uh, वर्ब्स् इति अस्ति खलु तत् ददाति इति एकवचनान्तरूपं परन्तु बहुवचनान्तं ददति इति भवति हा तत्र uh, महोदय किमस्ति तत् द द इति द्विवारं दृश्यते तथैव जु हु इति हु धातु इति अहम् उक्तवती परन्तु रूपं जुः भवति तत् तृतीयः गणः अस्ति तस्य गणस्य कृते तत्र द्वित्वं धातुरूपे एव द्वित्वं भवति इति एकः नियमः अग्रिमे वयं पठिष्यामः हा, हा? अतः तत्र द द, द इति दृश्यते मूलतः धातुतो दा एव अस्ति डुदाय दाने इति दा एव अस्ति परन्तु तत्र रूपे तत्र दकारस्य द्वित्वं दृश्यते हु इति धातु मूलतः जुहोत्यादिगणतः हु इति धातु परन्तु तत्र रूपे द्वित्वं भूत्वा हू हु अनन्तरं जूः एवं सर्वं भवति हा अस्तु अग्रिमे करोतु शक्नोति विषये अपि करोतु सः शक्नोति शक्नुतः तौ शक्नुतः के शक्नुवन्ति ते शक्नुवन्ति का शक्नोति सा शक्नोति के शक्नुताः ते शक्नुतः शक्नुवन्ति ताः शक्नुवन्ति उत्तम अधुना गच्छामः पुस्तकं प्रति अत्र अस्ति पृष्टक्रमाङ्कः पृष्टक्रमाङ्कः चत्वारिंशत् एवम् एतत् वयं कृतवन्तः दृश्यते सर्वेषाम् आम् पठामः भरतमहोदय आरम्भं करोतु आ, एक एकनिमिषम् अहं वदामि प्रथमवारं वर्तमानकाले विशेषक्रियापदानि अत्र एव तथैव लिखितमस्ति परन्तु तत्र एकवचनप्रयोगः अनन्तरं द्विवचनप्रयोगः बहुवचनप्रयोगः यथा तत्र वयं कृतवन्तः जानाति जानीतः जानन्ति करोति कुरुतः कुर्वन्ति चिनोति चिनुतः चिन्वन्ति जुहोति जुहुतः जुह्वन्ति तथैव क्रीणाति क्रीणीतः क्रीणन्ति अनन्तरं शक्नोति शक्नुतः शक्नुवन्ति प्राप्नोति प्राप्नुतः प्राप्नुवन्ति ददाति दत्तः ददति अनन्तरं गृह्णाति गृह्णीतः गृह्णन्ति इस् टु होल्ड् ग्रह शृणोति शृणुतः शृण्वन्ति श्रवणे टु हियर् रोदिति रुदितः रुदन्ति टु क्राय् अश्रु विमोचने बद्नाती बधनी बधनतीद्रूपा सरतम एक पढ़ती okay. वर्तमन कालेष क्रियापदाचन प्रयोग यहाँ एकमश क्षमता भारत महोदय किंचित न्यून अत उच्च वक्त शक्नो हे तत्र मैक्रोफोन् मध्ये दोषः अस्ति वा न जानामि वदतु वदतु वर्तमानकाले विशेषक्रियापदानि एकवचनप्रयोगः प्रयोगः यथा कः जानाति का करोति भवान् भवान् चिनोति ओके सो कण्टिन्यूट्वान् भवान् चिनोति भवान् चिनोति होता जुहोति अत्र होता इत्युक्ते तत्र यज्ञकर्ता द पर्सन् डुङ्ग् यज्ञ याग हवन तत्र मूलतः तत् होतृ इति अस्ति हा मातृ पितृ मूलतः प्रातिपदिकं मातृ तत् माता इति भवति प्रथमाविभक्तिः एकवचनं तथैव कर्तृ एतस्य कर्ता भवति प्रथमाविभक्ति एकवचनं होतृ तस्य होता इति भवति प्रथमाविभक्ति एकवचनम् अग्रिमे पठतु एषः क्रीणाति शक्नोति प्राप्नोति दाता ददाति सः गृह्णाति गृह्णाति इति गृह्णाति सः गृह्णाति तत्र पश्यन्तु तत्र ह मध्ये न इति अस्ति गृह्णाति गृह्णाति इति सः गृह्णाति सा पिरु शृणती पिरो बध्ना बज्ना अग्रिम द्विवचनेवचन प्रयोग यहाँ कौ जानी कौ क िनुतः होतारो जुहुतः भवत्यो क्रीणीतः शक्नुतः मित्रे प्राप्नुतः दातारो दत्तः मित्रे गृहि गृहितः गृह्णीतः राट् गृह्णीतः एतो ृणुतः बहुवचनप्रयोगः बहु काहा जानन्ति भवन्तः कुर्वन्ति ते चिन्वन्ति जु, आ, जुवती। तत्र okay. जुवती। जुवती। okay. एता सप्नुवंती होता जुहवतीक्वीं दाता ददती ृ गृति मिरा शृव श्रृव बद्न बधन अदय धन्यवाद अथम चयन कृत दृश्य है तहा अनन्तरं तत्र भवत्यौ क्रीणीतः भवत्यौ तत्र किमस्ति भवति इति श्रीलिङ्गिरूपं नदी एव चलति नदी नद्यौ नद्यः भवति भवत्यौ भवत्यः भवत्यौ इत्युक्ते महिलाद्वयं वा बालिकाद्वयं तत्र भवत्यौ क्रीणीतः तथैव एतौ एतौ कदा कदा आगच्छति सः तौ ते इत्युक्ते तत्र पुरुषद्वयम् एतौ शक्नुतः मित्रे प्राप्नुतः तत् मित्रम् इति न शब्द, वनं वने वनानि एवं मित्रं मित्रे मित्राणि तत्र मित्रद्वयं मित्रे प्राप्नुतः अनन्तरं तत्र होतारौ दातारौ तत् कथमस्ति होता होतारौ होतारः दाता दातारौ दातारः अतः तत्र होता एकवचने जुहोति इति भवति होतारौ जुहुतः इति भवति होतारः बहुवचनान्त जुह्वति इति भवति तथैव तत्र एताह तत्र सातेताह एषा एते एताः काः काः मित्राणि मित्रम् मित्रे मित्राणि अनन्तरं तत्र भवन्तः दृश्यते भवन्त इत्युक्ते किं भवति भवान, भवन्तौ भवन्तः इत्युक्ते भवान् पुल्लिङ्गिशब्दस्य बहुवचनान्तरूपं भवन्तः कुर्वन्ति भवत्यः भवत्यः कथमागच्छति स्त्रीलिङ्गि भवति भवन् भवति भव नदीनद्यौ नद्यः भवति भवत्य भवत्य भवत्यः शक्नुवन्ति एते प्राप्नुवन्ति एते कथमागच्छति पुनः एकवारं सः तौटे पुल्लिङ्गिशब्दस्य बहुवचनान्तरूपम् तथैव के इति आगच्छति ते सः प्रश्न निर्माणं करणीयमस्ति तदा के इति आगच्छति एवं सर्वं तत्र ताडिकायां दत्तमस्ति अधुना अग्रे सरेम वयं कृतवन्तः तत् चित्रवर्णनमिति हा किमपि वक्तव्यमस्ति वा कोऽपि वदति वा अत्र प्रश्नः अस्ति नहीं। अस्तु अत्र पश्यन्तु तत्र अभ्यासः अस्ति यथोदाहरणां पञ्चदशवाक्यानि वदतु तत् कथं तत् सारथिः सारथि सारथय अत्र अस्ति इकारान्तपुल्लिङ्गी शब्दस्य प्रथमा प्रथमाविभक्त्यन्तरूपाणि सारथिः सारथि सारथयः तथैव मुनिशब्दस्य रूपाणि सन्ति शत्रुशब्दस्य रूपाणि इन्द्रियं दुष्टः त्वम् अश्वः एवं सर्वम् अस्ति प्रथमा तालिका अनन्तरं चालयति चालयतः चालयन्ति जपति जपतः जपन्ति एवं सर्वमस्ति तत्र किमस्ति लट् लकार लट् लकार प्रथमपुरुष एकवचनान्त द्विवचनान्त बहुवचनान्तरूपाणि अधुना अस्माभिः किं करणीयमस्ति यथा तत्र दत्तं वर्तते मेलनं सारथिः सः चालयति इति सङ्गच्छति सारथी इत्युक्ते सारथिद्वयं सारथी, सारथी चालयतः इति अस्ति सारथय चालयन्ति इति अस्ति यथा वयम् आरम्भे कृतवन्तः तथैव अत्र दत्तं वर्तते उदाहरण सारथिः चालयति सारथी चालयतः सारथयः चालयन्ति मुनिः जपति जपतः मुनयः जपन्ति शत्रुः असूयति शत्रूयतः शत्रवः इन्द्रियं हरति इन्द्रिये हरतः इन्द्रियाणि हरन्ति दुष्टः विनश्यति दुष्टौ विनश्यतः दुष्टाः विनश्यन्ति त्वम् मोहयसि युवां मोहयथः यूयं मोहयथ अश्वः धावति अश्वौ धावतः अश्वाः धावन्ति सम्यक् अत्र एकः महत्त्वपूर्ण अंशः तत्र पश्यन्तु इकारान्तपुल्लिङ्गिशब्द सारथि तत् कथं प्रचलति सारथिः सारथी द्विवचनान्तरूपं तथैव मुनिः कृते कथं भवति मुनि हा शत्रु mm -hmm. mm -hmm. mm -hmm. mm -hmm. शत्रुः प्रथमा एकवचनं तत् शत्रू इति प्रथमा द्विवचनम् एवमस्ति शत्रवः त्वं युवां युयम् अश्वः अश्वः अश्वः पुल्लिङ्गी तु मनसि आगच्छति परन्तु द्विवचनान्तरूपाणि उकारान्तपुल्लिङ्गी इकारान्तपुल्लिङ्गी तत्सर्वं मनसि भवेत् इन्द्रियम् इन्द्रिये इन्द्रियाणि एवं सर्वन् तत्र चालयति इति धातु चाल जपति असूयति इत्युक्ते मत्सर हरति हरणं विनश्यति नाशनम् मोहयसि इत्युक्ते टेम्पेड् इति धावति इस् धाव गतौ अर्थे हा समीचीनमस्ति राधा भगिनी धन्यवादः यदा अस्माकं पुरतः सम्भाषणमस्ति वयं पठामः यशोदा कृष्णः द्वयोः मध्ये सम्भाषणं तज्जयन्ती भगिनी यशोदा कृष्णः भवति अगुस्टुमहोदयः पठतु धन्यवादः भगिनी <laughs> एतत् सम्भाषणम् एतत उच्चैः पठत अवगच्छत च यशोदा हे mm. कृष्ण त्वं कुत्र अस्ति अहं द्वारस्य पृष्ठतः अस्मि अग्रजः अपि अत्र अस्ति युवां तत्रैव स्तः तत्रैव ता, स्तः किम् आम् अत्रैव स्वः नीवा अपि अत्र अस्ति यूयं चोराहस्त किम् अस्ति तव हस्ते नवनीतं खादसि किम् नैव अम्ब वयम् क्रीडामः असत्यम् वदत नवनीतं चोरयत त्वमेव यच्छसि खलु पुनः वयं किमर्थं चोरयामः किन्तु गोपिकाः वदति त्वं नवनीतं नयति इति मिथ्या अम्बा अग्रजं पृच्छसि चेत् सत्यं अवगच्छसि इवाम चोरौस्त तौरस्तः एव असत्यं कथयति नीले त्वं वदसि चेदेव अम्बा विश्वस् विश्वसिति पर्याप्तम् अहं विस्म विश्वसिमि आगच्छ आगच्छत् अस्तु गच्छामः <laughs> <laughs> <laughs> पश्यन्तु <laughs> <या>, सर्वे <laughs> सर्वे सर्वाणि रूपाणि अत्र सन्ति खलु <laughs> यशोदा पृच्छति यशोदामय्या पृच्छति हे कृष्ण त्वं कुत्र असि अत्र असि इत्युक्ते जयन्ति भगिनी किं रूपम् सत्यं तदा कृष्ण वदति अहं द्वारस्य पृष्ठतः अस्मि अवस्थमहोदय अस्मि इति किं रूपम् उत्त, उत्तमपुरुष बहुवचनम् अयमि एकवचनम् एक उत्तमपुरुष एकवचनम् एक अस्मि त्वम् असि अहम् अस्मि अनन्तरं सः वदति अग्रजः अग्रज इत्युक्ते एल्डर् ब्रदर् कृष्णस्य अग्रजः कः अगस्तु महोदय किं नाम तत्र अग्रज लक्ष्मणः बलरामः रामस्य अग्रजः Sorry. रामस्य अनुजः लक्ष्मणः कृष्णस्य अग्रजः बलरामः तत्र एका कथा प्रचलिता अस्ति तत्र राम इति कथा हा तत् मिथ वा अहं न जानामि परन्तु राम लक्ष्मणः अनुजः अभवत् तदा सः राममुक्तवान् तत् विष्णोः अवतार इति मनसि सर्वेषां मनसि तादृशान् तादृशान् श्रद्धा तादृशी श्रद्धा ता, अस्ति तत् सः उक्तवान् लक्ष्मणः रामम् भवान् तु अग्रजः बहु कष्टम् अहं सहितवान् इति अग्रिमे जन्मे भवान् अनुजः भवतु अहम् अग्रजः भवामि इति इति एका लोककथा तथैव कृष्णावतारे अग्रजः बलराम शेषरूपेण एवं खलु जयन्तीभगिनी शेषरूपेण बलरामीष् हा सत्यं तत् शेषरूपेण अग्रजः अग्रजः अपि अत्र अस्ति बलराम अपि अत्र एव अस्ति कृष्णः वदति किमर्थं त्वं कुत्र अस्ति इति माता मातुः प्रश्नः त्वं कुत्र अस्ति अहं तु अत्र अस्ति परन्तु न केवलम् अहं तु अत्र अस्मि परन्तु न केवलम् अहं तत्र बलरामदा इति दादा तत्र दादा इति एल्डर् ब्रदर्स् इति सम्बोधनमस्ति लोक लोकभाषायां तत्र प्रादेशिकभाषासु तत्र सम्बोधनमस्ति तत्र बलरामदा अपि तत्र अस्ति न केवलम् अहमस्मि मम बन्धु अपि तत्र अस्ति अधुना यशोदा किं भवति चयन्ति सह रूपस्य सः रूपस्यं युष्मत् शब्दस्य द्विवचनरूपं सः इत्युक्ते द्विवचनरूपम् एव बेनि द्विवचनरूपं मध्यमपुरुष द्विवच मध्यं मध्यमपुरुषस्य खलु आम् युवां तत्रैव स्तः किम् इति माता पृच्छति आम् कृष्णः वदति आवाम् अत्रैव स्वः अधुना आगस्ट् महोदय आवामिति रूपं कथम् अस्ति अस्मत् प्रथमाविभक्ति द्विवचनम् अहम् आवां वयं तथैव स्वः उत्तमपुरुष द्विवचनम् आवाम् अत्रैवस्वः स्वः नीला अपि अत्र अस्ति अधुना सः वदति आवां तु अत्रैव स्मः परन्तु नीला अपि अत्र अस्ति वयं सर्वे तत्र सन्ति इति वयं सर्वे तत्र स्मः इति सः वदति नीला अपि अस्ति अग्रज मम अग्रजः अपि अस्ति अहमपि अस्मि इति सः वदति अधुना यशोधावती यूयं चोराः स्थ वदतु रूपस्य विषये जनकयुष्मत् शब्दस्य बहुवचनरूपं यूयं बेनि स्त इति मध्यमपुरुषबहुवचनरूपं नवनीतं खादसि खादसि इति मध्यमपुरुष एकवचनरूपं तव इति षष्टि इति मन्ये तत् तव सत्यं योग्यं त्वं युयम् इति इत्युक्ते तद् युष्मशब्दस्य त्वम् इति एकवचनं त्वम् युवां तद्विवचनं यूयम् अधुना यशोदामय्या सा वदति युयम. इत्युक्ते नीला अपि बलराम युयम. कृष्ण अपि यूयं चोराः स्तः यूयं तत् मद... मध्यमपुरुष इति रूपं मध्यमपुरुष बहुवचनान्तरूपं यूयं चोराः किम् अस्ति तव हस्ते अधुना तव हस्ते इत्युक्ते कम् उद्दिश्य वदति जयन्ति भगिनी कृष्णस्य हस्ते किम् सत्यम् कृष्ण एव नवनीतचोरः इति किमस्ति तव सेत् मया जानाति किमस्ति तव अस्ति नवनीतम् खादसि किम् इति कृष्णम् एव सा पृच्छति अतः तत्र खादसि इति रूपम् हम् नवनीतम् खादसि किम् अधुना पृष्ट नैव अम्ब अहं न खादामि तत्तु अस्ति लीलायां कृष्णलीलायाम् अवश्यमहोदय तत्र कृष्णलीला इति एकमस्ति तत् कृष्णलीलायां कृष्ण वदति मया अहं न खादामि सर्वे गोपिकाः सर्वाः गोपिकाः मिलित्वा एव मां मां ददन्ति ददति अहं न खादामि इति लैक् दट् अहं न खादामि एते गोपिकाः मिलित्वा मां ददाति मां ददति अहं न खादामि स्वयमहं किमपि न करोमि नैव अम्ब वयं क्रीडामः अधुना ओगस्ट् महोदय वयम् इत्युक्ते किं रूपम् अहम् आवां वयं बहुवचनम् क्रीडामः तदपि उत्तमपुरुष बहुवचनं यथा वयम् इति उत्तमपुरुषबहुवचनम् क्षम्यताम् वयम् इति अस्मत् शब्दस्य प्रथमाविभक्ति बहुवचनं तथा क्रीडामः उत्तमपुरुषबहुवचनं वयं क्रीडामः अधुना जयन्ति भगिनी असत्यं वदथ इति अशुधा माता वदति वधुदात दातो ऐ मीन् मध्यमपुरुष बहुवचनरूपं वदत नवनीतं चोरयत अपि बहुवचनरूपं मध्यपुरुष बहुवचनरूपम् असत्यं वदथ नवनीतं चोरयथ खलु तदा कृष्णवि वदति किमर्थं त्वमेव खलु पुनः वयं किमर्थं चोरयामः अत्र यच्छसि यच्छसि इत्युक्ते पुरुष इच्छा करोति परन्तु यच्छसि इति न यच्छसि इत्युक्ते इति तत्र यच्छ तत् आदेशरूपेण यच्छसि भवति दा इति लट् लकारे तत् यच्छसि भवति दा इत्युक्ते माम् माता एव दत्तवती अहं तुम चो न चोरयामि इति सः वदति त्वमेव यच्छसि खलु पुनः वयं किमर्थं चोरयामः त्वं तु मां खादनं कृते त्वम् एव मां ददसि किमर्थम् अहं खाद चोरयामि वयं किमर्थं चोरयामः अधुना गोपिका किं वदति किन्तु गोपिका वदति किं वदति जयन्ती भगिनी त्वं नवनीतं नयसि इति Hmm. नयसि त्वं त्वम् इति तत् ऐ मीन् शब्दस्य द्विवचनम् एकवच एक युष्म शब्दस्य एकवचनरूपं एक नयसि इति मध्यमपुरुष एकवचनरूपं नयसि मध्यमपुरुष एकवचनं त्वम् एव नयसि त्वं नवनीतं नयसि इति कोपि वदति अत्र इकम गोपीका तत्तर hmm. गोपिका मिल्वा वदी हाँ hmm. यशोदा यशोदायाप्वा hmm. hmm. गोपिक वे hmm. तो अस्क नमनीत नयसी परंतु यदा यशोदायाशोदाया दिने क्रुद्ध ज क्रुद्धा जाता सा उक्तवती एवम् अस्ति चेत् कृष्टं न पश्यन्तु एव समीपं आगच्छन्तु एव सर्वे अनन्तरं सायङ्काले सर्वाः गोपिकाः मिलित्वा तत्र आगतवन्तः आगतवत्यः हा अधुना किमर्थं भव भवत्य भवन्तः सर्वे अत्र आगच्छन्ति इति गोपिका गोपिकां दृष्ट्वा माता वदति यशोदा माता वदति तदा सर्वा गोपिकाः मिलित्वा वदन्ति न न अद्यदिने एव अस्माकं गृहे नवनीतम् अस्ति तत् नवनीतं तत विशेषप्रकारेण अहं कृतवती तत् अहमिच्छामि कृष्णं ददामि एवं सर्वं इत्युक्ते गोपिका पश्यन्तु तत्र नारदभक्तिसूत्रे इति एकमस्ति खलु जयन्ति भगिनी तत्र विषये यथा व्रजगोपिकानां यथा व्रजगोपिकानां भक्ति कथं करणीयं यथा व्रजगोपिकानां निरपेक्षभावनया भक्ति इति तथैव किन्तु गोपिका मिलति त्वं वरमित्तं नयसि इति अधुना कृष्णः किं वदति ओगस्टमहोदय मिथ्या अम्ब इति वदति मिथ्या इत्युक्ते किम् अगस्टमहोदय मिथ्या अम्ब अग्रजं पृच्छसि चेत् सत्यम् अवगच्छसि अत्र पृच्छसि अवगच्छसि रूपस्य विषये वदतु पृच्छसि मध्याह्मपुरुष एकवचनम् उत्तमम् अपगच्छसि अपि मध्यमपुरुष एकवचनं तत्र प्रच्छ इति धातु एकनिमिषम् एकनिमिषम् एकनिमिषं क्षम्यताम् आम् भगिनि अधुना यशोदा वदति युवां चोरौ स्तः एव अत्र चन्त्यगिनी चोरौ इति आं भगिनी वदामि युवाम् इति युष्मशब्दस्य द्विवचनरूपं चोरः शब्दस्य चोरौ इति द्विवचनरूपं स्तः इति मध्यमपुरुष द्विवचनरूपम् किमर्थम् असत्यं कथयति इति कथयसि अपि मध्यपुरुषे एकवचनरूपान्तं भवति अत्र किमर्थम् असत्यं कथयसि इति कृष्णमुद्दिश्य तावदति परन्तु युवामि अहम् आवां युवम् तत्र युवामिति बलराम् और् ऐ कृष्ण उद्दिश्य वदति अहम् आवां अहम् आवां वयं त्वं युवां युयम् इत्युक्ते तत्र युष्मश्शब्द अहं इति अस्मशक्ता mm. mm. वां बलरामकृष्ण mm. चोरौ स्थ एव किमर्थम् असत्यं कथयसि अधुना कृष्णा वदति तत्र नीला अपि आसीत् खलु नीले त्वं वदति चेत् एव अम्बा विश्वसिति इत्युक्ते नीला वदति चेत् एव अम्बा विश्वासं करोति इति आमामां नीला यदा वदति चेदेव अम्बा विश्वासं करोति दृश्यते आं भगिनि दृश्य विश्वसिति इत्युक्ते विश्वासं करोति विश्वसिति इति अनन्तरं यशोदामा न वदति पर्याप्तम् अहं अलम विश्वसि अलम् अलं अलम, अलम। अलम पर्याप्तं अहं विश्वसिमि आगच्छत अधुना आगच्छत इति मध्यमपुरुष बहुवचनरूपम् पुरुष बहुवचनरूपम् आगच्छत् आगच्छत कृष्णः अस्तु आगच्छामः आगच्छामः वयम् आगच्छामः एवं अहम् आवाम् वयम् अहम् आगच्छामि वयम् आगच्छामः इत्युक्ते सर्वे मिलित्वा सर्वान् उद्दिश्य सः वदति वयम् आगच्छामः एवं सर्वम् अस्तु उत्तम एकं वदनीयम् अत्र अहम् अस्माकं तमिळ् मध्ये एकग्रन्थमस्ति नालायकद्रव्यप्रबन्धम् इति तस्मात् आचार्याः बहु बहवः आचार्याः व्याख्यानं लिखितवन्तः विशिष्टाद्वैतसम्प्रदायम् श्रीवैष्णवसम्प्रदायम् इत्युक्ते विशिष्टाद्वैतसम् सम्प्रदायं तद्मध्ये वदन्ति नवनीतम् इत्युक्ते वयं सर्वे जीवात्मा नवनीतम् इति भगवान् चोरयति अस्माकं इति तत्र व्याख्यानं लिखितवन्तः भाष्यरूपेण उत्तमा नवनीतस्य अर्थः मूलतः नवनीतम् इति किमर्थम् इति तत्र इतोपि एकमस्ति तत् पश्यन्तु दुग्धम् अस्ति दुग्धतः तत् दधि अनन्तरं तस्य एव तक्रम् तस्मात् एव अनंतरम नवनीतम् इत्युक्ते साररूपेण यत् वयं प्राप्नुमः तत् नवनीतम् एव इति mm -hmm. mm -hmm. mm -hmm. धन्यवादः सर्वेषां mm -hmm. धन्यवादः अधुना अस्माकं कथायाः समयः तत् अस्तु एतावत्पर्यन्तं वयं कृतवन्तः अग्रिमे वर्गे अनन्तरं पुस्तकं प्रति गच्छामः अधुना कथायाः समयः अस्तु अत्र कथायाः विषये अधुना एकं प्रथमतः वक्तुम् इच्छामि तत्र एकं सुभाषितमस्ति अमंत्र, अमन्त्रम् अक्षरं नास्ति अमन्त्र अमन्त्रमक्षरं नास्ति नास्ति मूलमनौशनम् अयोग्यः पुरुषो नास्ति योजकस्तत्र दुर्लभः इत्युक्ते तत्र अमन्त्र अमन्त्रम् इत्युक्ते अस्मिन् विश्वे किमपि अक्षरम् अमन्त्रमिति नास्ति सर्वेषाम् अक्षराणां मन्त्रसामर्थ्यं वर्तते किमपि मूलम् अनौषधमिति नास्ति अनौषधम् न औषधम् अमन्त्रं न मन्त्रम् अक्षरं न अक्षरम् किमपि अक्षरम् अमन्त्रं न मन्त्रमिति नास्ति किमपि औषधम् किमपि मूलं न औषधम् इति नास्ति कोऽपि पुरुषः तत्र अयोग्य अयोग्यः न योग्यः इति नास्ति परन्तु महत्वपूर्णः विषयः कः योजकः तत्र दुर्लभः योजकस्तत्र दुर्लभः इत्युक्ते तत्र योजकः दुर्लभः अस्ति प्रायशः जनाः योजनां कथं करणीयम् इति योजना कथं करणीया एवं न जानन्ति इति योजकस्तत्र दुर्लभः किमपि अयोग्यं नास्ति किमपि व्यर्थं नास्ति सर्वेषां मूल्यमस्ति तस्मिन् विषये एषा कथा पठामः उपयोगिता आरम्भं करोतु राधा भगिनी आरम्भं करोतु उपयोगिता आम् भगिनि उपयोगिता कश्चन दारुहारः स्वपौत्रेण सह काष्ठकर्तनार्थं वनं गतवान् वने विभिन्नाकाराः वृक्षाः आसन. पौत्रस्य तत् प्रथमम् वनगमनम् आसीत् इत्यतः सह दारुहारः तेषाम् विषये पौत्रम् बोधयन् आसीत् सः अवदत् पश्य एषः स्थूलः वृक्षः एतस्य काष्ठेन काष्ठफलकानि निर्मयन् निर्मीयन्ते uh. तैः फलकैः द्वाराणि उत्पीठिकाः काष्ठ भित, भित, भित्तिकाः इत्यादयः निर्मयन्ते अत्र किमस्ति दारुहारः इत्युक्ते गुट्कटर् करे स्वपौत्रेण सह काष्ठकर्तनार्थं वनं गतवान् वने के आसन् विभिन्नवृक्षाः आसन् विभिन्नाकाराः विभिन्न आकाराः पौत्रस्य तत् प्रथमं वनगमनम् आसीत् प्रथमवारम् एवं सः पौ तत् पौत्रः पौत्र इत्युक्ते क्रेण्ड्सन् प्रथमवारम् एवं सः पुत्र, पौत्र प्रथम वार आगतवा आसी अत सारुहार पिता कथम कर्तन करीय कथम काम चयन पौत्रं विषय पौत्र बोधय आस अ स सह पौत्रे उक्तवान् एषः स्थूलः वृक्षः अस्ति तस्य काष्ठनेन काष्ठफलं निर्मयन् निर्मयति ते फलके द्वार द्वारे, द्वारे उत्पीठिका इत्यादि निर्मित निर्मितवन्तः इत्युक्ते यदा फलकानां निर्मितं निर्मिति करणीयमस्ति वा उत्पीठिकायाः निर्मितिः तदा स्थूलवृक्षस्य उपयोगितां तत् स्थूलवृक्षतः एव काष्ठफल फलकानि वयं निर्मयितुं शक्नुमः तेन किं भवति फलकस्य निर्माणं वा तत्र द्वाराणि वा उत्पीठिकाः वयं निर्मितुं शक्नुमः काष्ठभित्तिका एव गृहनिर्माणस्य कृते काष्ठभित्तिका एवं सर्वं वयं कर्तुं शक्नुमः यदा वृक्षः स्थूल आसीत् तदा अस्तु yeah, काष्ठभित्तिका काष्ठभित्तिका इत्युक्ते तत्र हट् यदा तत् कुटी अस्ति कुटी निर्माणमस्ति तेः तत्र द्वाराणि वा तत्र भित्तिका भित्तिका इत्युक्ते वाल् काष्ठेन एव तत् निर्मितुं शक्नुमः खलु अस्त धन्यवाद अग्रिम अग्रिमे भारत महोदय पठतिवा एते एक वक्र वृक्षा तथा भगिनी एक वक्रा वृक्षा उपयोगिवती कि अपृछत आं निश्चयेन एतादृशानां वृक्षाणां mm. काष्ठैः नौकायाः mm. बाह्यानि वक्राणि वक्राङ्गाणि निर्मीयन्ते इति mm. अबोधयत् पितामहः mm. किचि दूरे स्थितान, स्थितान उन्नतान स्थिता दर्शन सह पौ पो, पौत्रम अवदत्त उन्नत वृक्ष नौकाया दिन, दिन, दिन्दन भवति सह ध्वज वार एते व निर्माते अशं अक्रृक्षा भवति उपयोगिव इत्युक्ते तत्र प्रथमवारं सः स्थूलवृक्षस्य विषये पितामहः बोधितवान् अधुना पौत्रः पृच्छति वक्राः वृक्षाः तत्र वक्राः अपि वृक्षा अस्ति स्थूलवृक्षाः स्थूलवृक्षः वक्रवृक्षः तत् पौत्रस्य मनसि कुतूहलः किमर्थं वक्रवृक्षः यदा अस्ति तदा अपि तस्य उपयोगः भवितुम् अर्हति वक्राः वृक्षाः अपि उपयोगिनः भवन्ति किम् इति पौत्रः पृच्छति तदा सः पितामहः किं वदति किं वदति पितामहः भारतमहोदय निश्चयेन एतादृशा वृक्षाणां नौ नौकायाः वक्राङ्गानि निर्मयन्ते इत्युक्ते तत्र वक्रः वृक्षः यदि अस्ति तदा अपि नौकायाः यत् वक्राङ्गानि तत्र तस्य कृते वक्रवृक्षस्य अपि उपयोगः भवति तथैव उन्नतान् वृक्षान् दर्शयन् सः पौत्रम् अवदत् अधुना भारतमहोदय उन्नतं वृक्षं दृष्ट्वा सः किम् उक्तवान् नौकायाः नौकायाःकः दिङ् नियन्त्रक दिङ् इत्युक्ते तत्र दिशादर्शकयन्त्रः स्तम्भः तत् उन्नतः उन्नतः इत्युक्ते स्ट्रेट् टाल् तत् दिशानियन्त्रक दिशादर्शकस्तम्भः वा तत्र ध्वजस्तम्भः ध्वज इति फ्लाग् एवं सर्वं तस्य निर्माणमपि भवितुमर्हति इत्युक्ते स्थूलवृक्षस्य अपि उपयोगः भवति तत् द्वारं वा फलकं वा उत्पीठिका वा काष्ठभित्तिका एवं सर्वं तस्य निर्माणं भवितुमर्हति वक्रः वृक्षः अस्ति तदा नौकायाः बाह्यङ्गम् mm. उन्नतः वृक्षः अस्ति चेत् ध्वजस्तम्भः भवितुमर्हति वा दिशादर्शकस्तम्भः दिशानियन्त्रकस्तम्भः एवं सर्वं कर्तुं वयं शक्नुमः mm. अधुना अधुना अग्रे किं तत्र हा पश्यन्तु पितामह पौत्रेण सह तत्र काष्ठकर्तनस्य कृते काष्ठकर्तनस्य कृते वृक्षस्य चयनं करणीयम् इति उद्देश्य इति उद्देशात् तत्र स्तः अधुना स्थूलवृक्षः अपि उपयोगी वक्रवृक्षः अपि उपयोगी उन्नतः वृक्ष अपि तत्र तस्यापि उपयोगः भवति अधुना अग्रिमे पौत्रस्य प्रश्नः पठतु आम् आम इति आम सम्मतिं द्र दर्शितवान् पौत्रः स च अग्रे विद्यमानं कञ्चित् वृक्ष द्रस्ट, पितामहं पितामह पुष्टवास वृक्ष न स्थल न वक्र न उन्नता उपयोग नौका निर्माण भविम नतः एक वृक्ष कि कर्तयेव अधुना किम् अभवत् एतत् सर्वस्पष्टीकरणं पितामहेन तत्र दत्तम् अग्रिमे एकं वृक्षं दृष्ट्वा सः पौत्रः पितामहं पृष्टवान् कीदृशः वृक्षः एषः वक्रः न उन्नतः mm. एतस्य उपयोगः mm. नौकानिर्माणार्थं भवितुं न अर्हति hmm. अतः अतः एतं वृक्षं किम् इन्धनार्थं कर्त एव mm. तस्य कर्तनं कुर्मः वा Mm -hmm. yeah. न न स्थूलः इत्युक्ते तत्र द्वाराणि निर्मयितुं mm -hmm. न शक्नुमः न वक्रः तत् नौका नौकानिर्माणार्थमपि तस्य किमपि उपयोगः एव नास्ति mm -hmm. उन्नतः अपि नास्ति वा अन्यकोपि तस्य कार्यस्य कृते तस्य उपयोगः न भवितुम् अर्हति इन्धनार्थं कर्तयामः वा कर्तयेव वा इति सः mm -hmm. okay. अस्तु इत्युक्ते तस्य किमपि तस्य उपयोगं न भवितुम् अर्हति इति पौत्रस्य चिन्तनं न स्थूलः न वक्रः न उन्नतः तत्किमपि उपयोगं भवितुं न अर्हति अतः अतः तस्य कर्तनं कुर्मः इति विचारः पौत्रस्य विचारः पौत्रस्य मनसि एषः विचारः आगतः धन्यवादः भारतमहोदय अग्रिमे अगस्ट् महोदय पठति वा तस्य तस्य स्कन्धे हस्तं स्थापयित्वा दारुहारः अवदत् आदौ तं स्थूलं शुष्कं वृक्षं कर्तयेव अनन्तरं चिन्तयेव अस्य विषये इति अस्तु इति पौत्रः अङ्गीकृतवान् स्थूलवृक्षं कर्तयित्वा ्रान्तः पौत्रः विश्रान्तिम् इच्छन् पितामहम् प्रार्थितवान् उपविशाव किञ्चित् इति तावत्पर्यन्तम् एकवारं वदामः वा तस्य स्कन्धे हस्तं स्थापयिता स्थापयित्वा तारुहारः पितामहः अवदत् आदौ तं स्थूलं शुष्कं वृक्षं कर्तयव कर्तयव तत् विधिलिङ्गलिङ्ग उत्तमपुरुषद्विवचनम् इत्युक्ते स्थूलवृक्षस्य कर्तनं तत् शुष्क अस्ति स्थूल अस्ति तस्य कर्तनं प्रथमतः वयं कुर्मः यतो हि तत् उपयोगः कुत्र जायते द्वाराणि निर्मितुं वा भित्तिफलि भित, भित्तिका उत्पीठिका हा एवं सर्वं निर्माणं कुर्मः तस्य उपयोगः भवति तस्य कर्तनं प्रथमं कुर्मः अनन्तरं स्थूलवृक्षं कर्तयित्वा श्रान्तः पौत्रः विश्रान्तिम् इच्छन् पितामहम् प्रार्थितवान् तस्य कर्तनम् अभवत् स्थूलवृक्षस्य अधुना पौत्रः पृच्छति हा, हा उपविशाव इति इति स्थगयामः इति स्थगयामः इति सः इच्छति किञ्चित् विश्रान्ति सः इच्छति अतः सः वदति उपविशाव किञ्चित् लेटि फार् वै इति सः प्रार्थितवान् अग्रिमे पठतु आगस्ट् महोदय पितामहः तम् पुनः दर्शितस्य वृक्षस्य समीपं नीत्वा छायायाम् उपवेशितवान् किञ्चित् विश्राम्य सः पौत्रम् उक्तवान् पश्य एषः वृक्षः एषः वृक्षः निरुपयोगी इति मत्वा इंधनार्थं कर्त इति त्वया उक्तं आसीत् किन्तु अधुना तस्य छायायाम् एवं विश्रान्तिम् प्राप्तवान् खलु त्वम् पर्याप्तं पर्याप्त अधुना किम् अभवत् पौत्रः श्रान्तः जातः सः पितामहं विनन्तीं कृतवान् किञ्चित् उपविशाव उपविशाव किं रूपम् अहम् आवां वयम् उत्तमपुरुष अतः उपविशाव उत्तमपुरुष द्विवचनान्तरूपम् अधुना पितामहः किं कृतवान् तेन दर्शितस्य वृक्षस्य समीपं नीत्वा छायायाम् उपवेशितवान् छाया तत्र श्रान्तः पौत्रः छायायां यदा तत्र उपविशति तदा एव विश्रान्तिम् किञ्चित् स्वास्थ्यम् अनुभवति अतः तत्र छायायाम् उपवेशितवान् किञ्चित् विश्रम्य सः पौत्रम् उक्तवान् अनन्तरम् पितामहः उक्तवान् लोटलकार मध्यमुष एकवन पश्यश वृक्ष निरूपयोगी मंचि काले किंचितिपू भा उष वृक्ष न स्थल न वक्र न उन्नत तस्य किमपि उपयोगः तु न भवितुमर्हति निरुपयोगी वृक्षः एषः इति विचिन्त्य इति मत्वा इति चिन्तित्वा इन्धनार्थं कर्त एव इन्धनार्थं रैट् टु वन् तस्य किमपि उपयोगं नास्ति तत् इन्धनार्थं फोर् अ फ्युएल् कर्त इति त्वया उक्तमासीत् इति भवान् उक्तवान् अधुना तस्य छायायाम् एव विश्रान्तिं प्राप्तवान् खलु त्वम् अधुना त्वम् अत्र एव तिष्ठसि अत्र एव विश्रान्तिम् अनुभवसि तस्य छायायाम् एव तत्र उन्नतः वृक्षः अस्ति तत्र छाया नास्ति वक्रवृक्षस्य कृते समीचीनं छाया न भवितुमर्हति समीचीना छाया नास्ति परन्तु एषः वृक्षः भवान् चिन्तितवान् पूर्वे तस्य किमपि उपयोगः न भवितुमर्हति परन्तु तस्य एव छायायां भवान् विश्रान्तिं प्राप्तुवान् खलु अतः अधुना अग्रिमे अधुना अग्रिमे जयन्तीभगिनी पठतु अतः सर्वदा आम् बेनि किन्तु अधुना तस्य छायायां अतः सर्वदा त्वया अत्र एव खलु बेनि किन्तु अतः सर्वदा स्मर्तव्यं यत् कस्य अपि वस्तुनः इव जनस्य अपि उपयोगिता निरूपयोगिता वा सहसा न इति अतः सर्वदा सर्वदा त्वया त्वया स्मर्तव्यं स्मरणीयं यत् यत् कस्यापि लोके किमपि वस्तु उभयोगं वा आयु आयुभयोगं वा न भवति इति न चिन्तनीयम् इति उक्तवान् तत्र वस्तुनः अपि जनस्यापि आम् जनस्य अपि वस्तुनः अपि जनस्य अपि उपयोग उभयोगम् अ अति इति नास्ति अति निर्णयं न इति उक्तवान् अत्र इतोपि इतोपि एकः अंशः अस्ति भगिनी निर्णेतव्या इति इत्युक्ते भवान् निर्णयं मा करोतु तस्य निर्णयम् अस्माभिः न करणीयः इति इत्युक्ते एषः उपयोगी एषः निरुपयोगी तस्य निर्णयः अस्माभिः कदापि अस्माकम् अर्हता नास्ति तत् सत्यं सत्यं अग्रिम तस्मिन् कीदृशा गुणाः सन्ति ते च कथम् उपकारिणी उपकारिणीः भवेयुः इति गच्छता कालेन अनुभवेन च न्यायेरन् अतः वदन्ति सः कस्मिन् कीदृशगुणाः कस्मिन् अन्तर् कः गुणः सन् अस्ति इति वयं न जानीमः कालम् एव कालेन एव वयम् अनुभवामः तत् इति mm. uh, उक्तवान् अतः mm. कोऽपि जनः वस्तु वा जनः वस्तु वा क्षणेन एव उपेक्षणीयम् इति उपेक्षणीयम् इति अतः कोऽपि जनः वा वस्तु वा क्षणेन क्षणेन अपेक्षणीयम् इति उक्तवान् पितामहः हा उपेक्षणीयम् उपेक्षा इत्युक्ते अनादार् अनादरम् इत्युक्ते उपेक्षा इत्युक्ते तत् आङ्ग्लभाषायां ह्युमिलियेशन् इति एवम् अस्ति खलु तत्र उपेक्षा मा करोतु कस्य अपि जनः वा अस्तु वा क्षणेन न उपेक्षणीयम् निर्णयं वा निष्कर्षं प्रति मा गच्छतु तस्मिन् एव निश्चय निश्चयं प्रति ओ एषः तु न उपयोगी निरुपयोगी एषः तु उपयोगी एवं तस्य निर्णयं मा करोतु इति विचार तथैव तत् सुभाषितमपि अत्र अस्ति तत्र योजकस्य योजकः दुर्लभः अस्ति किमपि अक्षरम् अमन्त्रमिति न किमपि मूलम् अनौशनमिति न किमपि पुरुषः अयोग्यः नास्ति कोऽपि पुरुषः अयोग्यः नास्ति अस्तु अक्षरे अपि तत्र अक्षरम् एकम् एकम् अक्षरं, अक्षरं स्वीकृत्य तत्र मन्त्रसामर्थ्यं वर्तते अक्षरे अपि कथं वयम् उच्चारणं कुर्मः तदुपरि सर्वमस्ति एवं खलु तत् कथायाः विषये अनन्तरम् एकवारं सुभाषितमपि अस्ति राधा भगिनी भवती पठति वा सुभाषितमेकवारम् आं भगिनि अमन्त्रम् अक्षरं नास्ति नास्ति मूलमूलमनौषधं मूलम औषधम् ओके नास्ति मूलमनौषधम् अयोग्यः पुरुषो नास्ति योजक योजकत्र दुर्लभः अतः प्रयोजक तत्र दुर्लभः इत्युक्ते अमन्त्रम् अक्षरं नास्ति अमन्त्रम् इत्युक्ते अमन्त्रं किमपि अक्षरम् अक्षर अमन्त्रं न मन्त्रम् इति नास्ति सर्वेषाम् अक्षराणां कृते वदामः अक्षरे एकम् एकम् अक्षरं स्वीकृत्य वदामः चेत् तत्र मन्त्रसामर्थ्यम् अस्ति एव इति सुभाषितकार वदति अनन्तरं नास्ति मूलम् अनौषधम् मूलं मूलम् इत्युक्ते किं राधा भगिनी और तत्तु एकः अर्थ परन्तु तत् जडिबुटि इति वदामः चेत् अनौषधं तत् मेडिसिनल् वेल्यू इति रोट् खलु बेणे रोट् आम् आम आम, रूट् रोट् ओके सत्यं जडिबुटि वाला तत् न औषधम् अनौषधम् औषधम् न औषधम् इत्युक्ते मूलम् तत्र किमपि कुलम् अनौषधम् न अस्ति नास्ति अयोग्यः पुरुषः नास्ति कः अपि पुरुषः कोऽपि पुरुषः अयोग्यः नास्ति एषः अयोग्यः एषः एव योग्य तस्य निर्णयम् अस्माभिः न करणीयम् ता विष अताकं चिंत नव अयोग्य पुषा नोजक तुर्लभ योजकतया एक उपयोग करीय दुर्लभचित दुर्लभम चिंतन योजगा। इत्युक्ते योजकः इत्युक्ते तत् फेसिलिटेटर् इति वक्तुं शक्नुमः तत्र दुर्लभः इत्युक्ते तत्र यथा पितामहेन तत्र उक्तं स्फुरः mm. वृक्षः उन्नतः वृक्षः वक्रः वृक्षः सर्वेषां किमपि कार्यं करणीयमस्ति चेत् उपयोगः तु भवति mm. तदा पौत्रः पृच्छति एषः वृक्षः निरुपयोगी वा तदा सः उक्तवान् वृक्षे तत्र छाया छायायाम् एव वयं विश्रान्तिम् अनुभवम् अनुभ अनुभवितुं शक्नुमः mm. तथैव तस्य अपि उपयोगः अस्ति एव mm. अस्माभिः तस्य निर्णयं न कर्तव्यम् इति अधुना भवन्तः एकम् एकं पठन्तु कथायाः विषये सुभाषितस्य विषये चिन्तनं किमस्ति एकमेकं एकम अहं वदामि भगवतः सृष्ट्या किम किमपि व्यर्थं नास्ति सर्वे कारणार्थम् एव सृष्ट्या भवति कालेन वृष्टिकर्ता किमर्थम् सर्वं सृष्टिकृतवान् इति कालेन वयं जानीमः गच्छता कालेन एवं वयं जानीमः सम्यक् सम्यक् इत्युक्ते तत्र अस्माभिः किं स्मर्तव्यं जन्मनि इत्युक्ते जीवने ये जनाः अस्माकं सरुधरूपेण वा बान्धवरूपेण आगच्छन्ति तेषामपि किमपि प्रयोजनमस्ति जीवने यदा सुखम् अनुभवामः वा दुःखम् अनुभवामः परन्तु तत् प्रयोजनसहित एव अस्ति एवं अधुना अन्य कोऽपि राधाभगिनी भारतमहोदय अगोस्ट् महोदय वदतु Mm -hmm. you know due to our selfish way of thinking you know uh, about mm -hmm. around us there always looking for some benefit out of jumping karma maham sarvesh sarvada you know vastu na jana namapi kim upayogam iti aham cintayam it is very wrong thinking the, the, the story beautifully brings it out here स्वार्थभावनया तत् न भवेत् सत्यं सत्यं सत्यं योग्यं योग्यं भारतमहोदय धन्यवादः भारतमहोदय वदति वा सर्वस्य वृक्षाः उपयोगिता अस्ति उपेक्षा न करोति Ah, उपेक्षा मा करोतु इति कस्यापि उपेक्षा न करणीया इति सत्यं बिको देट् हर्ट्स् अ लाट् युनो देट् सार्ट् आफ् ह्युमिलियेशन् अ वर्स्ट् पार्ट् एण्ड् तेन पीडा जना जनानां कृते पीडा भवति तत् न करणीया उपेक्षा मा करणीया इति न करणीया भवान् इच्छति वा किमपि वक्तुम् इच्छति वा क्षम्यतां भगिनी आङ्ग्लभाषायां प्रयत्नं करोति वा man my, my vocabulary is is the, the problem okay okay chinta mat chinta mat bhagini dhanyavad vina bhagini tu uttav disha vaktum na saknuti bhagini to so itopi sheshaha astiva anya ko pi janti bhagini topiki mapivaktavyam asti chet madatu no chitvayam एकविषयं पुराणसमये अस्माकम् आचार्याः कालक्षेपं कृत करणीयसमये एकः शिष्यः पृच्छवान् अस्ति पृच्छवान् पृष्टवान् स्म सुनकस्य पुच्छः अस्ति खलु आचार्य किमर्थं सुनकस्य पृच्छ पृच्छ पृच्छकेन किमपि उपयोगं नास्ति खलु इति शिष्यः आचार्यं पृष्टवान् आचार्य वदति उदाहरणार्थम् अदा इत्युक्ते गुणः कथमस्ति इति वदनीयं चेत् शुनकस्य पुच्छम् एव वयम् उदाहरणीयं तस्य गुणः अपि शुनकस्य एव खलु तस्य गुणानपि वयं स्पष्टीकरणं न कर्तव्यं खलु करणीयम् इति अस्माकं आचार्यः उक्ता उदाहरणार्थमपि शुनकस्य पुच्छः भवति अतः भवत् भवतः दृष्ट्या किमपि व्यर्थं नास्ति इति आचार्यः उक्तवान् आमां सत्यम् उत्तमम् उत्तमं शुनकस्य पृच्छः अस्माकं पुरतः अस्ति अतः वयं वक्तुं शक्नुमः तत् उदाहरणार्थं कथमस्ति उत्तमम् उत्तमं बहु सम्यक् तथा इतोपि अहम् एकं स्मरामि अत्र भर्तृहरेः नीतिशतकम् इति एकम् अस्ति तत्र शतश नीतिशतकम् तत्र अहं मन्ये श्लोकानां वा तत्र अन्तिमा पङ्क्तिका का, तु प्रतिनिवेष्टमूर्खजनचित्तमाराधयेत् इत्युक्ते मूर्खजनस्य चित्तम् गृह एव तत्र किमपि परिवर्तनं न भवति यथा भवति न कस्य उदाहरणं दत्तवती तथैव तत् उदाहरणार्थं सर्वम् आवश्यकम् बुद्ध्या अपि परिवर्तनं न कर्तुं शक्यते न कर्तुं शक्नोति जनाः न कर्तुम् इति जस्ट् लीव् एव्रिथिङ्ग् लीव् देम् लैक् दे येन केन मार्गेण ते जनाः स्वे जनाः सन्तोषं न प्राप्नुवन्ति एव मा करोतु तथैव शुनकस्य पुच्छ एव उत्तमम् एतत् वाक्यं अहं सर्वदा उक्तवान् अस्मि आमाम् उत्तमम् उत्तम उदाहरणं अस्तु वयं स्थगयामः अग्रिमे बुधवासरे मेलिष्यामः सर्वेषां धने शान्तिमन्त्रं अधुना भरतमहोदय वक्तुम् इच्छति वा शान्तिमन्त्रं वदति वा वदतु भा? ॐ सहना भवतु सहनौनक्तु सवीर्यं कर्वा वहे तेजस्विना वदितमस्तु हे ॐ शान्ति शान्ति शान्तिः हरि ओम् धन्यवादाः धन्यवादाः धन्यवादः धन्यवादाः